पुरुषम् जातमघ्रतः तेन देवा अयजन्ता साध्या ऋषयश्च ये तस्माद्यात् सर्वभुतः सम्भृतम् वृषराज्यम् सर्वहुतः ऋजः सा बालिजज्ञिरे छन्दा गुंसि जज्ञस्मात् यजोस्तस्मादजायता तस्मादश्वा अजायन्ता येके एकेजो भजादतः गावो तस्मा हजज्ञिरेदस्मात् तस्मा अजा वयः यत्परुषं यददुः कथिथाव्यकल्पयन् मुखम् किमस्य कौ बाहू का भोरो पादामुच्येते ब्राह्मणो अस्य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 तानि धर्माणि प्रथमान्यासन् ते हाकम् महिमानः स चन्ते यत्र पूर्वे साध्याः सन्ति देवाः अर्धः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 विश्वतः परवान् नित्यम् विश्वम् नारायणगुम् हरिम् विश्वमे वेदम्बरुषस्तद्विश्वमुपजीवते पतिम् विश्वस्कात्मेश्वरगुम् साश्वतगुम् शिवमच्युतम् नारायणम् महाज्ञेयम् विश्वात्मानम् नारायणपरो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 श्रियम् देवेमुपह्जे श्रेर्मा देवे उत्युषताम् काम् सोऽस्मिताम् हिरण्यप्राकारा मात्राञ्ज्वलन्ते तृप्ताम् अर्पयन्ते पद्मे स्थिताम् पद्मवर्णाम् तामिहोपह्मजे श्रियम्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 निज देवेम् मातरम् श्रिगम् कुले आद्राम् पुष्करणे पुष्टिम् सुवर्णाम् क्षेमबालिने सोर्जाम् झिरण्मजेम् लक्ष्मीम् जातवेदो दो आद्राम् यःकरणे लष्टिम् पिङ्गलाम् मद्मबालिने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 धन्ना लक्ष्मी प्रचोदयात् श्रीर्वच्चः समायष्यमारो च भवानम् महीयते धान्यम् धनम् मित्रः संवरुणः सन्न भवत्वर्जमा सन्न चन्द्र बृहस्पतिः सन्न विष्णुरुक्रमः नभो ब्रह्मणे नमस्ते वायो त्वमेव प्रत्यक्षम् ब्रह्मासि त्वमेव प्रत्यक्षम् ब्रह्म वदिष्यामि ृतम् वदिष्यामि सत्यम् वदिष्यामि तन्मा भवतु तद्भक्तार भवतु अवतु माम् अवतु भक्तारम् ओम् शान्तिः शान्ति शान्ति सन्नो मित्रः संवरुणः सन्नो भवत् वर्ष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 ्रश्च सूदश्च धर्म ब्रह्म प्रजापति भूतम् वदिष्ये भुवनम् वदिष्ये तेजो वदिष्ये यशो वदिष्ये शवो वदिष्ये ब्रह्म वदिष्ये सत्यम् प्रजागै पशूराम् भोजासु हस्तरनमहम् प्रजागै पशूराम् भोजासम् प्राणापानो मृत्योर्माबाधम् प्राणापानो मामाहासष्टम् मधुमनुष्ये मधुजनिष्य मधुमक्ष्यामि मधुमदिष्यामि मधुमदे